श्रीमद्भागवत्पुराणं श्रीमद्भागवतमहात्मे चतुर्थोऽध्यायः श्रुत्वाच अथ वैष्णवचित्ते सो दृष्टा भक्तिमलौकिकीं निजलोकं परित्यज्य भगवान् भक्तवत्सलः वनमाली घनश्याम सा मनोहर मुकुट काञ्चीकलापरुचिरोल्लसन्मुकुटकुण्डलः त्रिभङ्गललललितश्चारूकौस्तुभेन विराजितः कोटिमन्मथलावण्यो हरिचन्दनचर्चितः परमानन्दचिन्मुरतिर्मधुरो मुरलीधरः आविवेश स्वभक्तानां हृदयान्यमलानि च वैकुण्ठवासिनो ये च वैष्णमा उद्धवादयः तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः तदा जय जया रावो रसपुष्टिरलौकिके चूर्णप्रसूनवृष्टिश्च मुहुः शङ्करवोऽप्यभून् तस्य भा संस्थितानां च दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवी अलौकिकोऽयं महिमा मुनीश्वरा सप्ताहजन्योऽविलोकितो मया मूढाशठाये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतमा भवन्ति अतो नृलोकेन नु नास्ति किञ्चिच्चित्तस्य शोधाय कलौ पवित्रम् अघौगविध्वंसकरं तथैव कथासमानां विनाशान्यत् के के विशुध्यन्ति वदन्तु मह्यं सब्दाहयज्ञेन कथामयेन कृपालभिर्लोकहितं विचार्य प्रकाशितकोऽपि नवीनमार्गः कुमारा उचुः ये मानवाः प्रापकृतस्तु सर्वदा सदा दुराचाररतापि क्रोधाग्निदग्धाकुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन् पुनन्ति ते सत्येन हीना पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमधर्मवर्जिताः येदाम्भि कामशरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ते पञ्चोग्रपापाच्छलछद्मकारिणः क्रूरापि साचा इव निर्दयास्त्य ये ब्रह्मस्वपुष्टा व्यभिचारकारिणः नित्यं प्रकुर्वन्ति सचा हठेन ये अद्र ते कीर्तयिश्याम इतिहासं पुरातनं यस्य श्रवणमात्रेण पापहानि प्रजायते तुङ्गभद्रातटे पूर्वम् अभूत्पन्तनमुत्तमं यत्र वर्णा स्वधर्मेण सद्यस्तत्कर्म तत्पराः आत्मदेव पुरे तस्मिन् सर्ववेदविशारदः श्रोतस्मार्ते सुनिष्णातो द्वितीययु भास्करः भिक्षुको वित्तवान् लोके तत्प्रिया धुन्धलि स्मृता स्ववाक्यस्थापिका नित्यं सुन्दरी शुकुलोद्भवां लोकवार्तारता क्रूराप्रायसो बहुजल्पिकां सूरा सूराच गृहकृत्येषु कृपणा एवं <mí> निमासन्तोः प्रेम्णा दम्पत्योरवमानयोः अर्थाः कामासयोरासान्द्रासन्न सुखाय गृहादिकम् पश्चाद्धर्मासमारब्धास्ताभ्यां सन्तानहेतवे गोभूषण् वासांसि दीनेभ्यो यक्षत सदाम् धनार्थं धर्ममार्गेण ताभ्यां नीतं तथापि च न ना पुत्रो नापि वा पुत्रे तदश्चिन्तातुरोभिषम् द्विजो दुःखाद्गृहं त्यक्त्वा वनं गतः मध्याह्ने त्रिशितो जातस्तडागं समुपेयवान् भित्त्वा जलं निषण्णस्तु प्रजा मुहूर्तादपि तत्रैव संन्यासी कश्चिदागतः दृष्ट्वापीतजलं तं तु विप्रो जातस्तदन्तिकं नत्वा च पादयोस्तस्य निःश्वसंसितः यतिरुवाच कथं रोदिसि विप्रत्वं काते ते चिन्ता बलीयसी सत्वरं मह्यं सस्य दुःखस्य कारणम् ब्राह्मण उवाच किं ब्रमीमि ऋषे दुःखं पूर्वपापेन सञ्चितं मदीया पूर्वजातोजास्तोऽयं कोष्णमुपभुज्यते मद्दत्तं नैव गृह्णन्ति प्रत्यादेवादिजातयः प्रजा दुःखेन शून्योऽहं त्राणास्त्यक्तोमिहागतः धिग्जीवतं प्रजाहेनं धिग्गृहं च प्रजां विना धिग्धनं चानुपत्यस्य धिक्कुलं सन्तति विना पाल्यते बन्ध्या सर्वथा भवेत् यो मया रोपितो वृक्ष सोऽपि बन्ध्या तुमाश्रयेत् यत्फलं तच्च शीघ्रं विनश्यते निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे इत्युक्त्वा सर्वदोच्चये तत् तत्पार्श्वं दुःखपीडितः तदा तस्य यते चित्ते करुणाभूद्गरीयसे च वाचयामास योगवान् सर्वं ज्ञात्वा यति पश्चाविमूचये सविस्तरम् यतिरुवाच मुञ्चाज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः विवेकं तु समासाद्य तज संसारवासनां तृणुविप्रमयातेऽद्य प्रारब्धं तु विलोकितं सप्तजन्मावधि तव पुत्रो नैव च नैव च सन्तते सगरो दुःखम् अवापाङ्गपुरा तथा रे मुंंचाद कुटुबाशा सन्यासी सुखं ब्राह्मणु उच विवेक किं मे पुत्र देहे बलादी नोचे त्यम्यहम प्राण तदग्रे शोकमूर्चिता पुत्रादी सुसुखहीन संस सुस्क गृहस्थ सरसो लोक पुत्रपौत्र सन्व एते विप्राग्रहं दृष्ट्वा प्राब्रविस्स चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनान् न सुखं पुत्राद्यथा देवहितोद्यमः अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम् तस्याग्रहं समालोक्य फलमेकं स इदं भक्ष्य पत्न्या त्वं ततः सत्यं शौचं दयादानम् एकभक्तं तु भोजनं वरसावधि स्त्रिया कार्यं तेन पुत्रोऽलः एवमुक्त्वा यौं योगी विभ्रस्तु तरुणे कुटिला तस्य सख्यशीघ्रे च रुरोदः अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्षये